अस्तु अद्य किञ्चित् धातुगणसम्बद्धसूत्रचिन्तनं कुर्मः इदानीम् आरम्भे वयं दृष्टवन्तः भूधातुः तु भूधातोः लट् लकार एकवचनरूपं भवति इति अस्ति खलु तत्र यत् यत्र इदानीं पूर्णतया एकवारम् एक एकवारं वदामि अनन्तरं यत्र कुत्रापि प्रश्नः भवेत् तस्मिन् सन्दर्भे वयं चर्चां कर्तुं कर्तुं शक्नुमः अस्तु तर्हि भवति कथं भवति इति भू धातुः प्लस् शप् विकरणप्रत्ययः प्लस् टि इति आख्यातप्रत्ययः इति अस्ति इदानीं शप् प्रत्ययः षित् इति अस्ति खलु नाम विकर् विकरणप्रत्यये ष लोपः अनन्तरं प इति अपि लोपः भवति hmm? तु यस् यस्मिन् प्रत्यये अथवा यस्य प्रत्ययस्य शकारः इत् इति अस्ति सः प्रत्ययः षित् इति उच्यते इदानीं इति नाम लोपः खलु षकारः गच्छति भवति इत्यस्मिन् रूपे षकारः दृश्यते वा न दृश्यते खलु अतः षकारस्य लोपः भवति तत्र विकरणप्रत्ययः शप् इति अस्ति किन्तु षकारलोपः भवति अतः षकारस्य इत् संज्ञा भवति संज्ञा नाम नाम अत्र शकारस्य इत् संज्ञा भवति अथवा इत्संज्ञकः इत् इत्संज्ञकः इति षकारः तु तर्हि षकारस्य इत् भवति अतः षट् प्रत्ययः षित् इति अस्ति अनन्तरं प्रश्नः महोदय वदतु षप् इति अपि वक्तुं शक्यते वा कस्मिन्नपि प्रत्यये यः वर्णः अपगच्छति अथवा न दृश्यते अनन्तरं तस्य लोपः भवति अतः सः वर्णः तस्य वर्णस्य इत्संज्ञा भवति अतः अतः पकार पकारः अतः तस्मिन् प्रत्यये पकारस्य इत् संज्ञा भवति अतः पित् अपि अस्ति सत्यं समीचीनं समीचीनं तर्हि एकं सूत्रमस्ति तिङ् षित् सार्वधातुकम् इत्यनेन सूत्रेण षट् षित् अस्ति अतः यः कोऽपि प्र यः कोऽपि प्रत्ययः तिङ् अथवा षित् अस्ति सः प्रत्ययः तस्य सार्वधातुकसंज्ञा इति भवति तर्हि षट् षित् अस्ति अतः सर्वधातुकसंज्ञा तस्य भवति hmm? mm. नाम षट् प्रत्ययस्य नामद्वयं जातं mm. नामद्वयं जातं षप् प्रत्ययः इदानीं तस्य नाम षित् अस्ति अपि अस्ति नाम mm. संज्ञा अस्तु mm. hmm? तर्हि इदानीं षकारस्य uh, नाम षप् शकारस्य लोपः पकारस्य लोपः च अतः भू प्लस् अप्लस्ति इति भवति अनन्तरं स च अकारः षित् अस्ति यद्यपि शकारः न दृश्यते किन्तु तस्य प्रभावः अस्ति अतः अ सः विकरणप्रत्ययः अ यः अस्ति सः षित् अस्ति सार्वधातुकम् अपि अस्ति अतः सार्वधातुकार्धधातुकयोः इति एकं सूत्रमस्ति तत्र सप्तम्यन्तपदमस्ति सप्तमीविभक्तौ अस्ति वयं जानीमः यत् व्याकरणे व्याकरणलोके सप्तमीविभक्तिः नाम तस्मात् पूर्वं खलु अन्तमीविभक्तिः नाम तस्य अनन्तरं यत् तस्य अनन्तरं किं यत् कार्यं क्रियमाणं क्रियमाणमस्ति यत् कार्यं क्रियमाणमस्ति पञ्चमीविभक्तिः अस्ति चेत् तस्य अनन्तरं भवति तस्य प्रत्ययस्य अनन्तरं भवति अनन्तरं सप्तमी अस्ति चेत् तस्मात् पूर्वं भवति अतः सार्वधातुक अर्धधातुकयोः इति अस्य अर्थः कः कः सार्वधातुकसंज्ञा अस्ति चेत् अथवा आर्धधातुकसङ्खे अस्ति चेत् तस्य तस्मात् पूर्वम् इगन्तधातुः अस्ति चेत् एक् इति इृ खलु इ mm. उ इति इगन्तस्य एकः गुणः स्यात् एक् नाम धातोः अन्ते इ उ अस्ति चेत् अनन्तरं सार्वधातुकसंज्ञा संज्ञकः प्रत्ययः अस्ति तस्य एकः गुणः भवति इदानीं भू भूधातुः इगन्तधातुः अस्ति खलु um. उकारः अस्ति अतः सार्वधातुकार्धधातुकयोः इति अनेन सूत्रेण शप अथवा अत्र अ या अवशिष्यते तस्मात् पूर्वं सप्तमीविभक्तिः अस्ति खलु तस्मात् पूर्वम् उकारस्य गुणः भवति नाम ओकारः भवति इति huh. अतः भू प्लस् अप्लस्ति भो क्षम्यतां भो प्लस् अप्लस्ति इदानीं एचोयवायावः इति एकं सूत्रमस्ति तत्र तस्मिन् तेन सूत्रेण ओकारः ओकारस्य अनन्तरं कोपि स्वरः अस्ति चेत् ओकारस्य अव् आदेशः अव् आदेशः भवति mm -hmm. ओ अव स्थाने अव् आगच्छति अतः भ प्लस् अव् प्लस् अ प्लस्ति भवति इति अस्ति एतत् सर्वं स्पष्टं वा सर्वेभ्यः अस्तु अस्तु समीचीनं तथा च अस्तु गोपालमहोदय एकवारं जीदातुः अस्ति जीदातुः जयति भवति कथम् इति वदति वा आम् कर्तुं षि अस्ति तत्र सार्वधातु सार्वधातुकोर्धातुकयोः अपि अस्ति सार्वधातुकार्धधातुकयोः धातुकयोः प्रथमतया वदतु षप् छित् अस्ति षित् अस्ति चेत् किं भवति प्रथमतया किं भवति अस्ति इति कारणतः किम, तिंशित् सावधातुकं सित् अस्ति चेत् सावधातुकम् अस्ति खलु तदा यदा शिप षप् लोपः तस् तस्य स्थाने आकारः आगच्छति षित् तदनन्तरं तिङ् षित् सार्वधातुककारणतः जी जे प्लस आ प्लस आप्लस्ति इति भवति एकनिमेषः एकनिमेष सार्वधातुकयोः इति कारणतः इति कारणतः गुणः तिंश्चित् सार्वधातुकं तत्र न किमपि कार्यं भवति तत्र तेन किं भवति सार्व सत्यं केवलं नाम आगच्छति गुणः केन सूत्रेण गुणः भवति जे आगच्छति इकारः गुणः भविष्यति केन सूत्रेण सूत्रेण जि स्थाने जेकारः अस्ति <clears throat> भवति केन सूत्रेण इति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण आम् सार्वधातुकार्ध आर्धधातुकयोः सूत्रेण गुणः भवति सार्वधातुकार्धधातुकयोः द्वयोः सूत्रेण भवति तस्मात् जेप् अस्ति तदनन्तरम् अन्यसूत्र अस्ति सूत्रेण यत्र ये अस्ति तस्मिन् तत्र ऐ आगच्छति इच् प्लस् ऐ प्लस् ति चयति इति क्रियापदं प्राप्यते समीचीनं हा सर्वेभ्यः स्पष्टं अत्र अस्तु सृ धातुः भगिनी शान्तिभगिनी वदति वा सृ धातुः इति भवति आं प्रयत्नं करोमि प्रायः करिष्यामि वा इति वा न जानामि अस्तु सृ प्लस् शप् प्लस्ति प्रथमतः तदा सृ सर सर प्लस् प्रत्ययः अस्ति खलु तत् सः शप् प्रत्ययः कीदृशप्रत्ययः इति वदतु शप्तुकं भविष्यति खलु सत्यं नाम अतः शप् इत्यस्मिन् प्रत्यये शकारः तिष्ठति वा न तिष्ठति गच्छति खलु गच्छति अतः अ एव तिष्ठति तत्र अतः अतः तस्य नाम भवति शकारः शकारस्य लोपः इति कारणतः शप् इत्यस्य नूतननाम भवति स च तत् श... सत्यं समीचीनम् अतः षित् सर्वधातुकम् इति hmm. तिंशित् सावधातुकम् अतः प्लस् अ प्लस् ति इति भविष्यति तदनन्तरं एकनिमेषः भवत्या उक्तं यत् सप्रत्ययः सित् अस्ति षित् अस्ति षित् अस्ति चेत् तस्य नूतननाम अपि आगच्छति तत् नाम किं सित् अस्ति चेत् किं कं हा षि षित् अस्ति चेत् तिङ् षित् सावधातुकम् इति अनेन सूत्रेण सावधातुकसंज्ञा नाम नाम अपि अस्ति तस्य नाम प्रथं प्रथमतया षट् षित् अस्ति षित् अस्ति इति कारणतः सावधातुकमपि भवति सावधातुकम् अस्ति चेत् किं भवति अस्ति चेत् तत्र गुणः भविष्यति न केन सूत्रेण सार्वधातुकार्धधातुकयोः सूत्रेण हा सत्यम् इदानीं शप् सावधातुकम् इति अस्ति अतः सावधातुकार्धधातुकयोः गुणः भवति अस्तु कीदृशधातुः अस्ति कीदृशधातुः स्यात् येन धातु गुणः भवतु नाम तस्य धातोः अन्ते ऋ अस्ति ऋ इति स्वरः कीदृशस्वरः अस्ति ई ऋ अस्ति चेत् तत् इति उच्यते खलु अतः सुरधातुः इगन्तधातुः यस्य धातोः अन्ते एक् अस्ति सः धातुः इत्यादि तर्हि सार्वधातुकार्धधातुकयोः इति सूत्रस्य सारांशः अस्ति सार्वधातुकार्धधातुकयोः परयोः एगन्तस्य अङ्गस्य एकः गुणः स्यात् तर्हि षधातुः एगन्तधातुः अस्ति खलु ah. नाम तस्य अन्ते एक् अस्ति ऋकारः नाम एक् अतः तत्र सर्वधातुकातुकयोः इति अस्य सूत्रं नाम उचितस्थानमस्ति एगन्तदातुः इगन्तधातुः नास्ति नास्ति चेत् सार्वधातुक आर्धातुकयोः इति सूत्रमस्ति चेदपि न किमपि कार्यं भवति उदाहरणार्थं खादति खाद् धातुः इदानीं खादति कस्मिन् गणे अस्ति प्रथमे गणे खलु अतः खाद् प्लस् शप् प्लस्थि खादति इति भवति शप् तत्र शप् शकार एत् षित् तिं षित् सावधातुकमिति अनेन सूत्रेण सावधातुकमपि आगच्छति अतः सावधातुक आर्धातुकयोः अपि भवितुम् अर्हति किन्तु तत्र खाद् इगन्तधातुः अस्ति वा न नास्ति खलु अतः सावधातुक आर्धातुकयोः इति अस्य सूत्रस्य अत्र न कार्यम् कार्यं कर्तुं न शक्नोति अत्र इगन्तधातुः अस्ति चेत् नाम भूधातुः जी धातुः तत्र भवितुमर्हति यदि धातोः अन्ते इ ई उस्ति तर्हि तदा भवति नो चेत् न भवति अस्तु अग्रे गच्छतु अतः तत्र प्लस् ति इति भविष्यति अतः सरति सत्यं समीचीनम् अत्र एचोयवायावः इति अस्य आवश्यकता नास्ति खलु नास्ति नास्ति एव तावदेव अस्ति अस्तु अग्रे गच्छामः तर्हि सार्वधातुकाद् धातुकयोः इति अस्माभिः अवगतम् अग्रे गद्व अग्रे अस्ति बूद् धातुः बोधति इति तत्रापि प्रथमे प्रथमे गणे अस्ति बूद् धातुः अतः बूद् पप् अस्ति सप् इति विकरणप्रत्ययः पूर्वम् इव षप् इति इति अस्य शकारस्य इत् संज्ञा भू, भूत्वा लोपः भवति अतः शप् षित् अस्ति शित् अस्ति चेत् किं शित् सावधातुकम् इति अनेन सूत्रेण सावधातुकम् इति भवति अनन्तरम् एकं सूत्रमस्ति फुगन्तलघुपधस्य च तस्य सूत्रस्य सारांशः अस्ति धातुक अर्धधातुकयोः नाम तयोः पूर्वम् ईगन्तस्य क्ष क्षम्यतां पुनः वदामः लघुपथस्य किमभवत् इदानीं प्रतिध्वनिः अस्ति स्तस्य करोतु कृपया यस्य मोबैल् फ़ोन् अस्ति हा यः इदानीम् आगतवान् तावता सम्यक् आसीत् अस्तु इदानीं पूगन्तलघुपदस्य चात्यस्य सारांशः अत्र लघुपधस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः का इति तर्हि अत्र बूद् धातुः बूद् धातोः अन्तिमवर्णः धकारः तस्मात् पूर्वम् उकारः अस्ति अतः उकारः उपधा उपधा इति अस्ति उपधा नाम एकं नाम अस्ति अन्तिमवर्णः कस्मिन् कस्मिन्नपि अङ्गे कस्मिन्नपि धातौ अन्तिमवर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य उपधा इति संज्ञा इति नाम अस्ति अतः उकारः उपधा अस्ति उपधा उकारः ह्रस्व उकारः अपि अस्ति खलु दीर्घ उकारः अस्ति चेत् न भवति केवलं ह्रस्व लघूपधा न लघूपधा नाम लग्झी उपधा लग्झी नाम ह्रस्व लग्झी उपधा तर्हि लघ्वी उपधा अस्ति चेत् अनन्तरं सावधातुकसंज्ञकप्रत्ययः अस्ति चेत् तर्हि तस्य तस्य उपधायाः एकः गुणः भवति इति लघुपथस्य च पुगन्तलघुपथस्य च इत्यस्य सारांशः नाम स्थितिः उचिता स्थितिः अपेक्षिता सा च सा च स्थितिः अस्ति चेदेव प्रसक्तिः भवति नाम उचितस्थानं भवति सूत्रस्य अत्र बूदधातुः अस्ति बूद्दातु बूद् धातोः उपधायां ह्रस्व उकारः अस्ति नाम लघ्वी उप् लघ्वी उपधा अस्ति अतः स्थानं उचितमस्ति शप् धातुः सार्वधातुकसंज्ञकः संज्ञकप्रत्ययः अस्ति शप् नाम शप् अतः सावधातुकमस्ति तर्हि भूदधातोः उपदायां लघु उकारः अस्ति रस उकारः अस्ति अनन्तरं शप् सावधातुकमस्ति अतः यत् एकः प्रश्नः अस्ति इत्यनेन सूत्रेण वर्णानां संज्ञा लोपः च किञ्चित् स्पष्टं न तत् तत्र चिन्ता चिन्ता नास्ति यत् किं यत् अस्ति नाम कश्चन प्रत्ययः अस्ति तत्र लोपः भवति खलु शप् इत्यस्मिन् शप् इत्यस्मिन् प्रत्यये शकारः न तिष्ठति शक् षकारः गच्छति, शकारह गच्छति. पकारः अपि गच्छति किन्तु षप्रत्यये अन्तिमवर्णः पकारः प्रथमवर्णः अस्ति शकारः एकं सूत्रं भवति अन्तिमवर्णस्य लोपार्थं हलन्त्यमिति सूत्रमस्ति किन्तु हलन्ति नाम प्रत्ययस्य आदौ इत्संज्ञा भवेत् इति चेत् फलं तं तत्र न न किमपि कार्यं करोति अन्यत् सूत्रमपेक्षते तत् सूत्रमस्ति लशक्व तद्धिते इति सूत्रं सकारः तत्र आगच्छति लक् श लशक्कु अतधिते नाम तद्धित प्रत्ययः नास्ति चेत् लशक्कवर्गः इति वर्णः अस्ति चेत् तर्हि mm. तस्य तस्य इत्संज्ञा भवति no, no, no, तावदेव no. अस्ति uh. mm. अतः लशक्वतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा भवति अनन्तरं uh. तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः भवति mm. किन्तु पकारस्य इत्संज्ञा केन सूत्रेण भवति हलन्त्यम् इत्यनेन सूत्रेण अनन्तरं तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः भवति वा हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा भवतिसंज्ञा भवति अस्तु तर्हि अत्र भूद् बोधते इति जातं इदानीं जीव्धातुः जीवति तु जी अत्र मम प्रश्नः अस्ति कोऽपि वदतु कृपया जीव् धातोः जीवति इति न भवति किमर्थम् उपधायाम् इकारः अस्ति खलु ह्रस्वः नास्ति हा सत्यं ह्रस्व इकारः भवति चेदेव इकारस्य एकारः भवति इदानीम् अन्य कोऽपि वदति वदतु कृपया अन्य एजति एकारः एजति तत्र उपधायामस्ति एकारः तत्र गुणः न भवति किमर्थम् mm -hmm. सर्वे जान सर्वे जानन्ति एव mm -hmm. अन्य, अन्य कोऽपि वदतु इतः एव गुणः भवितुम् अर्हति अतः आ... ए इति एतत् इस्ति सत्यं सत्यं समीचीनं विश्वासमहोदय समीचीनमेव अत्र एकारः एक् इति प्रत्याहारे नास्ति एक नाम कश्चन प्रत्याहारः अस्ति खलु नाम सङ्क्षेपः अभिवियेशन् इति इ उ ऋ तत्र एकारः न न अन्तर्भूतः न अन्तर्भूतः एव अतः तस्य गुणः तत्र प्रश्नः न उदेति एव वस्तुतः एकारः इति गुणः अस्ति स्वयम् अतः तस्य गुणः न भवतु मनति अस्तु अनन्तरं निन्द् निन्दति तत्र निन्दति इति धातु निन्द् इति धातुः किमर्थं लघु पुगन्तलघूपदस्य च इत्यस्य प्रसक्तिः भवति तत्र अन्य कोपि वदेत् इकारः उपाधायाम् अस्ति खलु स च इकारः ह्रस्व इकारः अस्ति के के सन्ति इति न जाने यतोपि कोऽपि वदति रमेशमहोदय अस्ति वा वदतु न जा न जानामि महोदय हा भवान् तु जानाति निन्द् इति निन्द् इति धातौ क वर्णः उपधा अस्ति निन्दिति धातौ अन्तिमः कः तस्मात् पूर्वं कः वर्णः अस्ति अतः नकारः एव किं नकारः एव उपधा अतः इकारः उपतायां नास्ति अतः तस्य गुणः न भवितुमर्हति अवगतं खलु अस्तु अग्रे गच्छामः तर्हि इदानीं षष्ठे घने लिक् धातुः अस्ति लिक् धातुः भवति लेक् प्लस् च प्लस् ति तत्र शकारलोपः लेक् अति अकारः स च अकारः शप् क्षम्यतां षित् इति अस्ति हा mm. नाम शकारस्य लोपः जातः अत षकार इत् इति कृत्वा लोपः जातः अतः अकारः षित् इति अस्ति तिं षित् सावधातुकम् इति अनेन सूत्रेण स च प्रत्ययः सावधातुकसंज्ञा संज्ञकः अपि अस्ति सावधातुकम् इति अनन्तरं सूत्रेण लेखति इति भवति खलु नाम अत्र क्षम्यतां पुगन्तलघुपथस्य च इत्यनेन सूत्रेण लेखति इति भवति स्म यतोहि अत्र लिख्दातौ लिख्दातौ इकारः ह्रस्व इक् अस्ति उपधायामपि अस्ति अतः च इत्यनेन सूत्रेण गुणः भवति um. यथा भूद्दातुः भूद् इत्यस्य बोध जातम् uh -huh. hmm? अतः गुणः न भवति सत्यं केन सूत्रेण प नास्ति अतः किं वदामः तत्र अपेत् इति अस्ति खलु अपेत् यस्य प एत् यस्य पकार इति नास्ति स प्रत्ययः अपेत् इति अनन्तरं सावधातुकमपेत् इत्यनेन सूत्रेण इत्यनेन सूत्रेण अपेत् ङ्य इव यस्मिन् प्रत्ययः यस्मिन् प्रत्यये नकारः इत् ङकारस्य इत् संज्ञा भवति स प्रत्ययः ञ्यत् अनन्तरं ञति च इत्यनेन सूत्रेण यः प्रत्ययः ञ्यत् अस्ति सः एकः गुणस्य बाधकं भवति बाधकसूत्रं नाम बाधकः प्रत्ययः भवति अतः अतः तत्र गुणः न भवितुमर्हति इदानीं यद्यपि षक् ष इति विकरणप्रत्ययः न्यत् नास्ति तथापि सावधातुकमपित् इत्यनेन सूत्रेण सावधातुकमस्ति सव सावधातुकमस्ति खलु नाम ष षि षित् अस्ति अतः तिंशत् सावधातुकम् इति सूत्रेण सावधातुकमस्ति अनन्तरम् mm -hmm. अपेत् अपि अस्ति प एत् इति नास्ति तत्र अतः अपेत् अतः सावधातुकम् अपेत् इत्यनेन सूत्रेण स विकरणप्रत्ययः ञत् इव भवति अनन्तरं ञति च इत्यनेन सूत्रेण बाधा भवति अतः गुणः न भवति अत्र प्रश्नः अस्ति वा एकः प्रश्नः लिक् न तु शप् किमर्थं सप्रत्ययः न तु शप् किमर्थं किमर्थं नाम एतादृशप्रश्नः तस्य प्रश्नस्य उत्तरं न भवति एव उदाहरणार्थं शुनकः शुनक इति पदस्य अर्थः द्वाग् किमर्थमिति एतादृशप्रश्नः अस्ति नाम संस्कृतस्य मूलम् अत्र मूलं, <laughs> मूलं तस्य प्रकृति प्रकृतिः स्वभावः प्र, इति प्र, प्रकृतिस्वभाव स्वभावः तस्य प्रकृति स्वभा, स्वभावः नाम तत्र पाणिनिः एतादृशं व्याकरणम् उक्तवान् वा पाणिनि एतत् सर्वम् उक्तवान् किन्तु नाम नाम अत्र भाषां दृष्ट्वा संस्कृतभाषां दृष्ट्वा एतत् सर्वं रचितवान् अतः तावदेव नाम तस्य संस्कृतभाषायाः आरम्भस्य मूलरूपम् इति तावदेव